अथ दशाधिकशततमः सर्गः रावणम् निहतम् श्रुत्वा राघवेण महात्मना अन्तःपुराद्विनिष्पेतु राक्षस्य शोककर्षिताः वार्यमाणास्तु बहुशो वेष्टन्त्यः शोकार्ता गावो वत्सहता उत्तरेण विनिष्क्रम्य द्वारेण प्रविश्यायो धनम् घोरम् विचिन्वन्त्यो पतिम् आर्यपुत्रेति वादिन्यो हानाथेति च सर्वशः हा। परिपेतुः कबन्धाङ्काम् महीम् शोणितकर्दमा ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः करिण्य इव रावण निहत भूमौ नीलां चयम तति सहसा दृष्ट्वा शयानमृण शुषु निपेतुस्त गात्रु छिन्ना वनलता इव बहुमज्य काचिदेनम रोरोद चरण काचिद्य काचिकलंब्य उत्िप्य चुजौ काचि भूमौ सुपरी हतस्य वदनम् दृष्ट्वा काचिन्मोहमुपागमत् काचिदङ्के शिरः कृत्वा रुरोदमुखमीक्षति स्नापयन्ती मुखम् बाष्पैस्तुषारैरिव पङ्कजम् एवमार्ताः भुवि चुक्रुशुर्बहुधा शोकात् भूयस्ताः पर्यदे येन वित्रासितः शक्रो येन वित्रासितो यमः येन वै राजा पुष्पकेण वियोजितः गन्धर्वाणामृषीणाम् च सुराणाम् च महात्मना भयम् येन दत्तं सोयं शेते शेतेरणे हतः असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा भयम् यो न विजानाति तस्येदम् मानुषाद्भयम् अवध्यो देवतानाम् यस्तथा दानवरक्षसा हतः सोऽयम् रणे मानुषेण पदातिना यो न शक्यः सुरैर्हन्तुम् नयक्षैर्ना सुरैस्तथा सोऽयम् कश्चिदि वासत्वो मृत्युम् मर्त्येन लम्भितः एवम् वदन्त्योरुरुरुरुरुरुरुरुरुरुरुरुदुस्तस्य ता दुःखिता स्त्रियः भूय एव च दुःखार्ताभिलेपश्च पुनः पुनः अशृण्वता तु सुहृदाम् सततम् हितवादिना मरणाया हृता सीता राक्षसाश्च निपातिताः एताः ते वयमात्मा च वाक्यमिष्टो भ्राता विभीषणः दृष्टम् परुषितो वृत्तकामो भवेत् भ्राता रामो मित्रकुलम् भवेत् वयम् चाविधवाः सर्वाः स कामा न च शत्रवः त्वया पुनर्मृशंसेन सीताम् संरुन्धता बलात् राक्षसा वयमात्मा च त्रयम् तुल्यम् निपातितम् न कामकारः कामम् वा तव राक्षसपुङ्ग वा दैवम् चेष्टयते सर्वम् हतम् दैवेन हन्यते वाणराणाम् विनाशोऽयम् राक्षसानाम् च तेरणे तव चैव महाबाहो दैवयोगादुपागतः नैवार्थेन च कामेन विक्रमेण न, न, न चाज्ञया शक्यादैव गतिर्लोके निवर्तयितुमुद्यत बिले पुरेवम् दीनास्ता राक्षसाधिपयोषितः कुरर्य इव शे श्रीमद्राणे वाक्ये युद्धकांडे दशाकत सर्ग